गणेशुराण उपासखंडम अयम एट्टीफ क उच शिवश्यालिंगना भिली मदनालिता नापक्वा सुखम देवी निर्जलेशभरी यदा पतिता जलमध्ये सातलोशीशिनी न शर्मलेभे तत्रापि स्थले निद्रां न चालभत कर्पूरचन्दनं तस्याधिकं तापमादधे न शीतलपदार्थोऽ स्याः कोऽपि सन्तोषमादधे काले सास्ति चर्मावशोषिता तदो गिरिशमागम्य गिरिजा गिरिमब्रवीद न त्वं मृष्यसि मां देव कामवस्थां गतास्मिह दग्धोऽपि मदनो मह्यमत्यन्तं पीडयत्यहो नानो शान्तये न च सा येनोपायेन शान्तिः स्यात् सतं कुरु मम प्रभो यदि mm. वाक्यं समाकर्ण्यप्रिया ह्या प्रियकृधरः रहस्येदां करे कृत्वा पर्यङ्गे पर्यवेश यद रेमेतया यथेष्टं स मदनेन वशीकृतः मृतेनापि कृदं तेन महत्कार्यं सुरेरिदं अनङ्गेन समो नैव धन्वीधि यश आप्तवान् तयोस्तु क्रीडतो यादाषष्टिसहस्रवत्सराः भ्रष्टस्थानामुनिसुराश्रुत्वा मदनचेष्टितम् कैलासम् पुनरायातास्तत्र क्रीडारतं हरम् ज्ञात्वा तूष्णीं स्थितास्तत्र चिन्ताव्याकुलचेतसः तारकासुरभीतास्ते पुनर्गह्वरमागता कदा वधो भवेदस्य कदा स्थानानि करिष्यति कदा शम्भुरस्माकं दुःखनाशनम् इति चिन्तार्णवेमग्ना वेमग्ना सुराः तावदूचे सुराचार्यो वाक्यं मे प्रशयन्तु अखिला वह्निं रूपान्तरधरं हरम् सफरं बोधयित्वाशु भवत्कार्यं भविष्यति तदस्ते वह्निमाकार्यतुष्टुवोर्विविधैस्तवैः देवा ऊचुः त्वत्तो यत्नक्रिया ब्रह्मन् संसारः सर्व एव अपां त्वमसि हेदुश्च देवानां मुखमेव च अग्निहोत्रप्रणेता त्वं गार्हपत्यादीनामपि त्वमेव पिबसि शाब्दिवारिनित्यं महत्तरं त्वमेव पचसे नृणां जठरे षड्रसानपि त्वमेव सर्वजन्तूनां सन्धौ सन्धौ विचेष्टसे त्वयात्यक्दं त्यक्तं प्रेदसंज्ञां लभदे दह्यदे त्वया हे दुस्त्वमासि देवेश जन्तूनां प्राणधारणे त्वयाद्भिश्च विनान्नं पक्तुं शक्यं न त्वमेव ब्रह्म रुद्रश्च सूर्यश्चानेकरूपधृक् त्वमेव जायसे मूलम् क्रोधस्य जगदीश्वर यत्र तत्र भवेत्तेजस्तत्तद्रूपं तथैव च अतस्त्वाम् प्रार्थयामोद्य त्रिलोक्य उपकारक त्रैलोक्याक्रमणं तेन तारकेण कृतं विभो जानासि तन्न भो वाणीं कामस्यापि च तां गतिं पार्वतीहरयोर्बोधं चिरं क्रीडानिमग्नयोः कुरु भिक्षां याचस्व एवं कृते जगत्कार्यमस्माकं च भविष्यति ब्रह्मोवाच इति देवव च काशाय वसनो द्विजः भूत्वा सूक्ष्माय यौ तत्र यत्रास्तां पार्वतीश्वरौ क्रीडासक्तौ बहि भिक्षां देहीत्युवाच सः त्रिवारं प्लुदशब्देन द्वाभ्यामभिुतस्वनः ऊच दुर्विस्मितौ तौ तु परस्परमुभौ वचः परिधत्तां शुके कुदोत्रायं समागदः किमस्मै च प्रदातव्यमिति चिन्तां च चक्रदुः उमाञ्जलावधाद्वीर्यमशक्रा तस्य धारणे जानदीभाविनं चार्धं ददौ सा भिक्षुकाय तत् भूम उत्यक्रं दहे देदत्रैलोक्यं सचराचरम् हरवीर्य शापया तोर गर्भवानलोजादज्ज्जवान पिताप्र यौवन शर्मले नई उषुद्धा गंगाया दिवाकरे। स्नादुं यावत् स शौचादिकुरुते तावदेवः आगता षट् स्त्रियस्तत्र स्नादुमूर्धे समाहिताः अग्निना यत्समुत्सृष्टं गङ्गेयं च हरप्रिया धारयिष्यति शक्ता चेज्जलरूपा सुशीतला शिववीर्यं च तत्ताभिप्राशितं षड्विभागतः तस्मिन्नेव क्षणे सोऽग्निरन्तर्भिसमपद्यत अङ्गुशानि च यादानि दूरदेशं गदे नले परिधायस्वस्त्रांस्तास्ततो यादानिजं गृहम् ददृश्युः पदयस्तासां मुखान्यत्युज्ज्वलानि च गर्भिण्य यदि ते ज्ञात्वा ज्ञानदृष्ट्या मुनीश्वराः बहिश्चक्रुर्गृहात् सर्वान्न प्रदर्श्यं मुखं द्विदं ताः पुनर्गङ्गां तीरेशर सुशोभिते मुमुचुस्वस्वगर्भंता स्वस्वगर्भं स्ना गृह ययु षुता सुता सुं स्व गर्भ विमुच्य वै षमुखोदुजो बात व्यजात तर कुमे चकम्बे धरणि सर्वाशेषपातालमेव च द्रुमा उन्मीलिता सूर्यो निहाराच्छादितो भवद एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः पैलासं गिरिशं दृष्टुं गच्छन्मार्गे ददर्शतम् दीप्ततरं बालं दुग्धशं बलवत्तरं प्रणिधानेन तं ज्ञात्वा तूष्णीं कैलासमाययौ उवाचपार्वतीं शम्भुं वृत्तान्तं सर्वमेव च जहर्षपृथिवी सर्वां ज्ञात्वा तं गिरिशात्मजम् देवदुन्दुभयो ने जगुरुद्भुदं नारद उवाच आगच्छदा मया दृष्टो गौरिमार्गे तवात्मजः षण्मुखो द्वादशभुजो सूर्यकोटिसमप्रभः गङ्गातीरे निपतितस्त्यक्रस्ते षण्मुखो नुकिम् कॉटिकंदर्पशोभा्योगिदिता किल कथम निष्ठुता कारिगौरीसुंदरबाक क उवाच्वा उपासना उपासनाखंडे सन्दोपाख्यानं नाम पञ्चाशीतितमोऽध्यायः ॐ